अथ पञ्चषष्टितमः सर्गः ततः प्रस्रवणम् शैलम् ते गत्वा चित्रकाननम् प्रणम्य शिरसा रामम् लक्ष्मणम् च रामे समनुरागम् च यथा च नियमः एतदाख्यायते सर्वं हरयो रामसन्निधौ वैदेहीमक्षताम् श्रुत्वा रामस्तोत्तरमब्रवीत् क्व क्वसीता वर्तते देवी कथम् च मयि वर्तते एतन्मे सर्वमाख्यात वैदेहीम् प्रतिवानराः रामस्य गदितम् श्रुत्वा हरयो रामसन्निधौ चोदयन्ति हनूमन्तम् सीतावृत्तान्त कोविदम् श्रुत्वा तु वचनम् तेषाम् हनूमान्मारुतात्मजः प्रणम्य शिरसा देव्यै सीतायैताम् दिशम् प्रति उवाच वाक्यम् वाक्यज्ञः सीताया दर्शनम् यथा तम् मणिङ्काञ्चनम् दिव्यम् दीप्यमानम् स्वतेजसा दत्त्वा रामाय हनुमाम्स्ततः प्राञ्जलिरब्रवीत् समुद्रम् लङ्घयित्वाहम्शतयोजनमायतम् अगच्छम् जानकीम् सीताम् मार्गमाणो दिदृक्षया तत्र लङ्केति नगरी रावणस्य दुरात्मनः दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे तत्र सीतामया दृष्टा रावणान्तः पुरे सती त्वयि सन्न्यस्य जीवन्ती रामा राम मनोरथम् दृष्टा मे राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः राक्षसीभिर्विरूपाभिरक्षिता प्रमदा वने दुःखमापद्यते देवी त्वया वीरसुखोचिता रावणान्तः पुरे रुद्धा राक्षसीभिः सुरक्षिता एकवेणीधरा दीना चिन्ता परायणा अधः शय्या पद्मिनी वहिमागमे रावणाद्विनिवृत्तार्थामर्तव्यकृतनिश्चया देवी कथञ्चित् काकुत्स्थत्वम् मनामार्गिता मया इक्ष्वाकुवंशविख्यातिम् शनैः कीर्तयता नघा सा मया नरशार्दूलशनैर्विश्वासिता तदा ततः देवी सर्वमर्थम् च रामसुग्रीवसख्यम् च श्रुत्वा हर्षमुपागता नियतः समुदाचारो भक्तिश्चास्याः सदा त्वयि एवम् मया महाभागदृष्टा जनकनम् दिनी उग्रेण तपसा त्वद्भक्त्या पुरुषर्षभा अभिज्ञानम् च मे दत्तम् तवान्तिके चित्रकूटे महाप्राज्ञवायसम्प्रति राघवा विज्ञाभ्यः पुनरप्येष रामो वायुसुतत्वया अखिलेन यथा दृष्टमिति मामाह जनकी अयम् चास्मै प्रदातव्यो यत्नात् सुपरिरक्षितः ब्रुवतावचनान्येवम् सुग्रीवस्योपशंवतः एष चूडामनिः श्रीमान्मया ते यत्नरक्षितः मनःशिलायास्तिलकम् तत्स्मरस्वेति चाब्रवीत् एष निर्याततः श्रीमान् मया तेवारिसम्भवः एनम् दृष्ट्वा प्रमोदिष्ये व्यसने त्वामि वानघा जीवितम् दशरथात्मजा ऊर्ध्वम् मासान्न जीवेयम् रक्षसाम् वशमागता इति मामब्रवीत् सीता कृशाङ्गी धर्मचारिणी रावणान्तः पुरे रुद्धा मृगीवोत्फुल्ललोचना एतदेवमयाख्यातम् सर्वम् राघवयद्यथा सर्वथा सागरजले सन्तारः प्रविधीयत तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानम् राघवाय प्रदाय देव्या चाख्यातम् सर्वमेवानुपूर्व्याद्वाचा सम्पूर्णम् वायुपुत्रः शशंसा इत्यार्षे श्रीमद् वाल्मीकिये आदिकाव्ये सुन्दरकाण्डे पञ्चषष्टितमः